क्रोधम् त्यक्त्वा तु पुरुषः कालयुक्तं तेजोऽभिपद्यते कालयुक्तम् महाप्राज्ञे क्रुद्धैस्तेजः सु दुःसहम् क्रोधस्त्वपण्डितैः शश्वत्तेज रजस्तु लोकनाशाय विहितम् मानुषम् प्रति तस्माच्छश्वत्यजेत्क्रोधम् पुरुषः सम्यगाचरन् श्रेयान् स्वधर्मा न पगो न इति निश्चितम् यदि सर्वमबुद्धीनामतिक्रान्तमचेतसाम् अतिक्रमो मद्विधस्य कथम् स्वित्स्यादनिन्दिते यदि न स्युर्मानुषेषु क्षमिणः पृथिवी समाः न स्यात्सन्धिर्मनुष्याणाम् क्रोधमूलो हि विग्रहः अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणाहतः एवम् विनाशो भूतानामधर्मः प्रथितो भवेत् आकृष्टः पुरुषः सर्वम् प्रत्याक्रोशेदनन्तरम् प्रतिहन्याद्धतश्चैव तथाहिंस्याच्छ हिंसितः हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितृन् हन्युश्च पतयो भार्यास्पतीन् भार्यास्तथैव च ेवम् संकुपिते लोके शमः कृष्णेन विद्यते प्रजानाम् सन्धिमूलम् हि शमौ विद्धिशुभानने ताक्षिपेरन्प्रजाः सर्वाक्षिप्रन्द्रौपदितादृशे तस्मान्मन्युर्विनाशाय प्रजानाम भवायच।